श्रीमद्भागवतमहापुराणं दशस्कन्ध अथ पञ्चपञ्चाशत्तमोऽध्यायः प्रद्युम्नका जन्म ओरसंबरासुरुकावन् श्रीशोवाच कामस्तु वासुदेवांसो दग्धप्राग् रुद्रमन्युनां देहोपपत्तये भूयस्तमेव प्रत्यपद्यत स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः प्रद्युम्न इति विख्यात सर्वतो नवमपितुः तं सम्बरकामरूपे हृत्वातोकमनिर्जहं स विदित्वात्मनशत्रुं प्रास्यो जन्म जगादृहं तं निर्जगारबलवान्मी न शोप्यपरैः सह मृतोजालेन महता गृहीतो मस्य जीविभिः तं सम्बराय कैवर्ता उपाजहसूरुपायनं सूदा महानसं नीत्वा वद्यन् सुरिति नाद्भुतं दृष्ट्वा तदुदरे बालं मायावत्यै नारदो कथयः सर्वं संकित सङ्कृतचेतसः बालस्य तत्त्वमुत्पत्तिम् अस्यो दुर्निवेशनम् सा च कामस्य वै पत्नीरतिर्नाम यशस्विनी पत्युर्निर्लग्धं देहस्य देहोत्पत्तिं प्रतीक्षते निरूपिता सम्बरेण शासुपोदनसाधने कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके नातिदीर्घेण कालीन स काष्णीरूढयौवनः जनियामाश नारीणां नाम वीक्षन्तीनां च विभ्रमं सातं पतिं पद्मदलायते क्षणं प्रलम्बबाहुन्दरलोकसुन्दरं भृवेक्षते तिम्भितभ्रुवेक्षति प्रीत्योपतस्थैरतिरङ्गसोरतैः तामाह भगवान् कानिर्मार्तस्ते मतिरन्यथा मातृभावमतिक्रम्य वरदसे कामनी यथा रतिरुवाच भवान्नारायणसुतशम्बरेणार्हितो गृहात् अहं तेऽधिकृता पत्नीरतिकामो भवान् प्रभो एष त्वा निर्दशनं सिद्धा वक्षिप् शम्बरोऽसुरः मत्स्योऽग्रसितो दुर्दरादिः प्राप्तो भवान् प्रभो तामिं जहे दुर्धसं दुर्जयं शत्रुमात्मनः मायासतविदं त्वं च मायाभिर्मोहनादिभिः परिशोचति ते माता कुलिरीव गतप्रजां पुत्रस्नेहाकुलादीनां विभत्सा प्रभास्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने मायावती महामायां सर्वमायाविनाशिनीं सच च संबरमथ्येमभ्येत्य संयुगाय समाह्वयत् आविसह्यै समाक्षेपैः क्षिपन् सञ्जयन् कलिं सोऽधि क्षिप्तो दुरोचोऽम्भि पादाहत इवोरगः निश्चप्रां गदा पाळीरमर्षां ताम्रलोचनः गदा माविद्धतरसा प्रद्युम्नाय महात्मने प्रक्षिप्य व्यनन्दन्नादं वज्रणिस्पेश निष्ठुरं तामापतन्तीं भगवान् प्रद्युम्नो गदया गताम् अपासि सत्रवे कुद्ध प्रां प्राह्णोत स्वगदां स च मायां समाश्रित्य दैतेयीं मे दर्शितां मुंचेस्रमयं वर्षं कार्ष्णौ वैहायशोऽशुरः बाध्यमानोऽस्रुवर्षेण रौ पुण्येयो महारथ सत्त्वात्मिकां महाविद्यां सर्वमायोपरिं मर्दिनीं ततो गौह्यककां गौहककान्धर्वपयसाचो रुगुराक्षसी प्रयुक्तसस्योदैत्य काष्ठी व्यर्थमयस्य ताः निषातम् असिमुद्यम्य सुकीतं शकुन्दनं शम्बरस्य शिरकाया ताम्रमस्म स्रोजसाहरतु आक्रियमाणोजविजयी सुवद्भिः कुसुमोत्करे भार्यचाम्बरचारिण्या पुरं नीतो विहाय अन्तःपुरुवरं राजन् ललनाशितसङ्कुलं वेषपत्न्यागग्नाद्विद्युतेव बलाहकः तं दृष्ट्वा जलश्यामं पीतकौशेयवाशषम् प्रलम्बबाहुं तां राक्षं सुस्मितं रुचिरानलं स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः कृष्णं मत्वा श्रियोषित्ताम् निरील्योस्तत्र तत्र, तत्र अवधार्य स नैरीशद्वैलक्षण्येन योषितः उपजग्मो प्रमुदिता शस्त्रीरत्नं सुविस्मिता अथ तत्रासितापाङ्गे वैदर्भी वल्गुभाषिणी अस्मरन् स्वसुतं नष्टं स्नेहस्नोतपयोधरा कोऽन्वयं नर्वयदुर्य कस्य वा कमलेक्षणः धृतकया वा जठरे केयं लब्धा त्वनेन वां मम चाप्यात्मजो नष्ठो नीतोय सुतिकागृहात् एतत्तुल्यवयोरूपो यदि जीवति कुत्रचे कथं त्वनेन सम्प्राप्तं सारुक्तिं सार्गधन्वनः आकृत्यावयवैर्गत्या स्वरहासावलोकनैः स एव वां भवेन्नूनं यो मे गर्भेधितोर्भकः अमुस्मिन् प्रीतिरधिका वाम स्फुरति मे भुजः एवं मीमांसमानायां वैदर्ह्यां देवकीसुतः देवेक्यानकदन्दुभ्याम् उत्तमश्लोक आगमत् विज्ञातार्थोऽपि भगवान् सुष्टिमासुजनार्जुनः नारदौ कथयः सर्वं शम्बराभरणादिकं तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तपुर्योषितः अभ्यनन्दनं बहून्नब्दान्नष्टमृतमिवागतं देवकी वसुदेवश्च कृष्णरामौ तथा श्रियः दम्पतीतौ परिस्पृज्य रुक्मिणी च ययुर्मुदम् नष्टं प्रद्युम्नमायातम् आकर्ण्यद्वारकौकशः अहोमृति इवायातो बालो दिष्टेतिहाब्रुवन् भृवन् वै मुहो पितृस्वरूपानिजेशभावा तमान्तरो यद्भजन् ररूढभावाः चित्रं न तत् खलुरं रमास्पदं बिम्बबिम्बे भिंग कामे स्मरेक्षिविषये किमु तान्यः श्री श्रीमद्भागवते महापुराणे पारभ्यां चयितायां च संस्कन्धे नाम पञ्चपञ्चाशत्तमोऽध्यायः